अथ षट्त्रिंशः सर्गः इत्युक्तस्तारया वाक्यम् प्रश्रितम् धर्मसंहितम् मृदुः प्रतिजग्राह तद्वचः तस्मिन् प्रतिगृहीते तु वाक्ये हरिगणेश्वरः लक्ष्मणात् सुमहत्रासम् वस्त्रम् क्लिन्नमिवात्यजत् ततः कण्ठगतम् माल्यम् चित्रम् बहुगुणम् महत् चिच्छेदविमदश्चासीत् सुग्रीवो वानरेश्वरः सलक्ष्मणम् भीमबलं सर्ववानरसत्तमः कब्रवीत्प्रश्रितम् वाक्यम् सुग्रीवः सम्प्रहर्षयम् प्रणष्टा श्रीश्च कीर्तिश्च कपिराज्यम् च शाश्वतम् रामप्रसादात् सौमित्रे पुनश्चाप्तमिदम् मया कशक्त दे से ख्या कर्मण तीत अंशेना भी नृपात्मज सीता धर्माष्य रावण सहायमात्रेण मै राघवस्वे तेजस सहायकृत्यं किुम गिरी वसुरा चाणे नैकता धनुस्फारमाणस्य यस्य शब्देन लक्ष्मण सशैलाकम्पिता भूमिः सहायैक्यम् नरेन्द्रस्य करिष्येऽहम् नरर्षभा गच्छतो रावणम् हन्तुम् वैरिणम् स पुरःसरम् विश्वासात् प्रणयेन वा प्रेष्यस्य क्षमितव्यम् इति तस्य ब्रुवाणस्य सुग्रीवस्य महात्मनः अभवल्लक्ष्मणः प्रीतः प्रेम्णा चेदमुवाचः सर्वथा हिममभ्राता स नाथो वा नरेश्वर त्वया नाथेन सुग्रीव प्रश्रितेन विशेषतः यस्ते प्रभावः सुग्रीव यच्छते शौचमीदृशम् अर्हस्त्वम् कपि राज्यस्य श्रियम् भोक्तुमनुत्तमा सहायेन च सुग्रीव त्वया रामः प्रतापवान् वधिष्यति रणे शत्रून चिरान्नात्र संशयः धर्मज्ञस्य कृतज्ञस्य सङ्ग्रामेष्वनिवर्तिनः उपपन्नम् च युक्तम् च सुग्रीव तव भाषितम् दोषज्ञः सति सामर्थ्ये कोल्म्यो भाषितुमर्हति वर्जयित्वा मम ज्येष्ठम् त्वाम् च वानरसत्तमा सदृशश्चादिरामेण विक्रमेण बलेन च सहायो दैवतैर्दत्तश्चिराय हरिपुङ्गवा किन्तु शीघ्रमितो वीरनिष्क्रमत्वम् मया सह सान्त्वयस्व मयस्यम् च भार्या हरणदुःखितम् यच्च शोकाभिभूतस्य श्रुत्वा रामस्य भाषितम् मया त्वम् परुषान्युक्तस्तत्क्षमस्व सखे मम इत्यार्षे श्रीमद् रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे षट्त्रिंशः सर्गः